एवतिमूणाद् दशकम् मधुरैक पुरपडुदल् निशमय्यत वातयानवार्ता मृषमार्ता पशुबालबालिकास्ता किमिदम् किमिदम् कथम् विधीमा समवेद परिदेवितान्यकुर्वन् करुणानितिरेक्षनन्दसूनो कथमस्मान् विसृजेतनन्यत बद, दन किमुदैवमेवमासीत् इति तास्वद्गतमानसा विलेपो शरमप्रगरे सह पित्रा निजमित्रमण्डलैश्च परितापभरम् निदम्बिनीना समयिष्यन् व्यमुषः स कायमेकम् अचिरा धृतमित्याश्वसितावधूरकर्षे सविषादपरम् स याज्ञमुश्चै अधिदूरम् वनिदाभिरिष्यमाण मृदुत दिशि पातयन्नपाङ्गान् क्रोररतेन निर्गतो बहुलेन मनसा बहुलेन वल्लभा मनसा चानुगतोत वल्लभाना वनमार्तमृगम् विषण्णवृक्षम् समतीतोऽयमुना तटीमयासि नियमायनिमज्जवारिणि त्वाम् अविवीक्ष्यातरतेऽपि गान्तिनेय विवशो जनिकिन्विदम् विभोस्ते ननु चित्रम् त्ववलोकनम् समन्दात् पुनरेशनिमज पुण्यशाली पुरुषम् त्वाम् परमम्बुजङ्गभोगे हरिकम्बुगधाम्बुजैः स्फुरन्तम् सुरसि दौकपरीतमालुलोके स तदा परमात्मसौख्यसिन्धौ विनिमग्न प्रणवन् बेतै अविलोक्य पुनश्च कर्ष सिन्धो अनुवृद्ध्यापुलकावृतो ययौ त्वा किमु शीतलिमा महाञ्जले यत् पुलको सा विदिशोति तेन तेन अधिहर्ष निरुत्तरेण सार्धम् दतवासि पवने च पाहि माम् त्वम् कृष्णबोल् कृष्णबोल् कृष्णकृष्णबोल् राधा समेध